नमो भगवते वासुदेवाय अथ उद्यापनानन्तरं व्रतनियममोक्षणमुच्यते वाल्मीकिरुवाच अशेषपापनाशार्थं गरुडध्वजतुष्टै गृहीतनियमत्यागश्चोच्यते विधिपूर्वकः नक्तभोजी नरूराजन ब्राह्मणान् भोजयेदथ अयाचिते व्रते चैव स्वर्णदानं समाचरेत् अमावास्याशनो यस्तु प्रदद्याद्गां दक्षिणां धात्रीस्नानं नरो यस्तु दधिवाक्षीरमेव च फलानां नियमे राजन् फलदानं समाचरेत् तैलस्थाने घृतं देयं घृतस्थाने पयस्तथाम् धान्यानां नियमे राजन गोधूमान् शालितण्डुलान् भूमौ च शयने राजन् सतूलीं सपरिच्छदां सुखदां चात्मनो न्यस्य ह्यन्तर्यामि प्रियोजनः पत्रभोजी नरो यस्तु भोजनं घृतशर्करां मौने घण्टां तिलांश्चैव स हिरण्यान् प्रदापयेत् दम्पत्योर्भोजनं चैव सस्नेहं च सुभोजनम् नखकेशधरो राजन् आदर्शं दापयेद्बुध उपानहौ प्रदातव्ये उपानह विवर्जनात् लमणस्य परित्यागे दातव्या विविधारसा दीपदाने नरो दद्यात् पात्रयुक्तं च दीपकम् अधिमासे नरो भक्त्या स वैकुण्ठे वसेत् सदा दीपं च सकृतं ताम्रं काञ्चनीवर्तिसंयुतं पलमात्रं प्रदेयं स्याद् व्रतसम्पूर्णहे तवे एकान्तरोपवासे च कुम्भाव प्रदापयेत् सवस्त्रान् काञ्चनोपेतान् मृण्मयानथ काञ्चनान् मासान्ते मोदकान् त्रिंशत् छत्रोपानः संयुतान् अनड्वांश्च प्रदातव्यो धौरे यस्तु धुरिक्षमः सर्वेषामप्यलाभे च यथोक्तं विना द्विजवाक्यं स्मृतं राजन् सम्पूर्णव्रतसिद्धिदम् एकान्नेन नरो यस्तु मलमासं निषेवति चतुर्भुजो नरो भूत्वा स याति परमारं परम। परम किञ्चित् पवित्रमिह विद्यति एकान्नान्मुनयः सिद्धाः परं निर्वाणमागताः अधिमासे नरो नक्तं यो भुङ्क्ते स नराधिपः सर्वान् कामान् अवाप्नोति नरो नैवात्र संशयः पूर्वाह्ने भुञ्जते देवा मध्याह्ने मुनयस्तथाम् अपराह्णे पितृगणाः स्वात्मार्थस्तु चतुर्थकः सर्ववेलामतिक्रम्य यस्तु भुङ्क्ते नराधिपौ ब्रह्महत्यादिपानि नाशं यान्ति जनाधिप नक्तभोजि महीपाल सर्वपुण्याधिको भवेत। दिने दिने दिनेष्वमेधस्य फलं प्राप्नोति मानवः तस्मिन् विवर्जयेन्माश मधिमासे हरिप्री। सर्वस्मान्मुच्यते पापात् विष्णुलोकं स गच्छति तिलयन्त्राणि पापात्मा कुरुते ब्राह्मणोऽपि सन् तिलानां सङ्ख्यया राजन् स वै तिष्ठति रौरवी चाण्डालयो निमाप्नोति कुष्ठरोगेण पीड्यते शुक्ले कृष्णे नरो भक्त्या तादृश द्वादशीं समुपोषयेत् शुक्ले कृष्णे नरु नरोभक्त्या द्वादशीं समुपोषयेत् आरुह्य गरुडं याति नरो भूत्वा चतुर्भुजः स देवैः पूज्यमानोऽपि ह्यप्सरोगणसेवितः दशमीं द्वादशीं चैव एकभुक्तं च कारयेत् प्रीयते देवदेवस्य नरः स्वर्गमवाप्नुयात् भक्त्या च सर्वदा राजन्चं न वर्जयेत् दर्भेण मार्जयेत् यस्तु पुरिषं मूत्रमेव च श्लेषमाणं रुधिरं वापि विष्ठायां जायते कृमिः पवित्राः परमादर्भा दर्भहीना वृथाः क्रियाः दर्भमूले वसेद्ब्रह्मा मध्ये देवो जनार्दनः दर्भाग्रे तु ह्युमानाथर्भेण मार्जयेत् नरेच्छूद्रु कपिलापय पत्रमध्येन भुञ्जीत ब्रह्मपत्रस्य भूपते नोच्चरेत् प्रणवं मन्त्रं पुरोडासं न नासनं नोपवीतं च नाचरेद् वैदिकीं क्रियां निर्विन्ध्याचरणं कुर्वन् निर्विद्ध्याचरणं कुर्वन् पितृभिः सह मज्जति पतन्ति नरके घोरे यावदिन्द्राश्चतुर्दश पश्चात् स कौक्कुटीं योनिं सुकरीं वानरी च एतस्मात् कारणाच्छूद्रः प्रणवं वर्जयेत् सदा नमस्कारेण विप्राणां श्रोद्रो नश्यति भूमिप एतत्कृत्वा महाराज परिपूर्णं व्रतं चरेत् अदत्त्वा दक्षिणां वापि नरकं यान्ति वै नरा व्रत वैकल्यमासाद्य ह्यन्धाकुष्ठी प्रजायति धरामराणां वचनैर्नरोत्तमाम् दिवौकसां वै पदमाप्नुवन्ति नोल्लङ्घयेद्भूपवचान्सितेषां श्रेयोभिकामीमनुजः स विद्वान् इदं मया धर्मरहस्ययुक्तम् श्रेयस्करं पापविमर्दनं च फलप्रदं माधवपुष्टिहेतोः पठेच्च नित्यं मनसोऽभिरामम् यः शृणोति नरो राजन् पठते सर्वदा स परमं लोकं यत्र योगीश्वरो हरिः इति श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादि गृहीतनियमत्यागूनाम षड्विंशोऽध्यायस्त्रीपुरुषोत्तमार्पणमस्तु